मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टिसिक्स् पातालविजयः श्रीगणेशाय नमः मुद्गल उवाच तदोदक्षमहत्सैन्यं पृथिवी जयनोद्यतम् अननेक्षत्रियाणां तत्प्रवृत्तं कालचक्रवद विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः युद्धं तैः सह कुर्वाणः कस्तास्यति पुमान् भुवि दैत्याः पादप्रहारेण चूर्णयन्तोद्रिसञ्जयान् शेषमस्तकमानम्य धारेणैव प्रचक्रिरे तान्मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् अभवन् यमरूपान्ते क्षत्रिया गतजीविनः केचित् पलायितास्तत्र केचिच्च शरणं ययुः महावीरास्तु दे कृत्वा स्वर्गं ययुर्मदाः ये, ये मृता तत्सुधास्तैस्तु स्थापिता करदायिनः शरणागद राजानस्तापिताः स्वपदे तथा यच्च राजविहीनं तु दैत्यास्तत्राधिपा कृताः राजानः सर्वविषये देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ भाव भावबोधार्थमेवं सर्वत्र कारितं सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननन्तः मत्सरोदिवशां पृथ्वीं तत्र दृष्ट्वा प्रजापदे पातालमगमदैत्यो दैत्यवृन्दसमन्विधः मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः नागोद्यानानि गत्वा ते बभञ्जुर्दिनन्दनाः तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः वासुकिस्तक्षकश्चैव कम्बलाश्वतरौ तथा इद्या बहवो नागा, नागा राजा क्रोध सक्रोध महाभोगा, महाभोग महाबला रथादिषु समा नानवाहनगा बभु शस्त्रास्त्र निचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् दैत्यास्तान् शस्त्रसङ्खादैः पादयामासुरोजसा नागैर्महाबलैस्तत्र निषदा दैत्यसञ्चयाः भग्नदर्पाः पलायन्त दशदिक्षु सुविह्वला दैत्यानां कदनं दृष्ट्वा विरोचनमुखाययुः असुरा क्रोधसंयुक्ता नागांश्च मर्दयं स्तुते शस्त्रास्त्रैर्विविधैर्दैत्या मारया मासुरोजसा केषाञ्चिन्मस्तका भग्नापादहस्तोदरं तथा शोणितानां महानाद्य प्रास्रवन्वैदिशो आहाकार रवैर्युक्ता नागास्त्रासमन्विताः दैत्यानां पौरुषम् दृष्ट्वा वासुकिप्रमुखाययुः क्रोधेन वारया वारयामासुरोजसा तक्षकादिमहानागाविषं क्षुब्धाश्च तत्यजुः विवरं तद्विषयि सर्वं व्याप्तं तत्र प्रजापदे महाविषभवाज्वाला ददाः सुरपुङ्गवान् मृदा दैत्या अनेके गरले न प्रपीडिताः न स्थातुं शक्यते तत्र दैत्यै सङ्ग्राममण्डले शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल गजाश्वरथपादादं मृदं दग्धं च सर्वशः मूर्छिताः पतिता एतस्मिन्नन्तरे तत्र प्रतापी विरोचनः उद्धृतः समरश्लाकी गतपीडो महाबलः शुक्रेण तत्र दैदेया विद्यया निर्विशा कृताः उद्धिता सर्वदा सर्वे अन्धकप्रमुखा बभुः असुराक्रोधसंयुक्ता गरुडास्त्रं च तत्यजुः तस्मात् गरुडाजादा नागान् सर्वानभुञ्चत तत्र वा सुखिना तेन विषज्ज्वाला प्रवर्तिता गरुडाश्च तया दग्धा गरुडास्त्रं तथा भवत यदद्दृष्ट्वा महाश्चर्यं वा महद विरोचनादयसर्वे सर्वे गरुडा मायया भवन् तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिश्योदश पलायन्तभयोद्विघ्ना महानागाश्च भैरवः सर्पराट् तक्षपाध्याये गरुडैपीडिताभृशं मूर्च्छिताश्च मृदप्राया जादायुद्धे च दारुणे शेषेण सर्ववृत्तान्तो ज्ञादो ज्ञादिभयङ्करः आययौ सामभावेन शरणं दैत्यसन्निधौ किमर्थं क्रोधसंयुक्ता दैत्याभृदमहाबलाः भ्रातरस्त्वासुरायूयं मदीयानात्र संशयः किमर्थं युद्धमारब्धं वक्तव्यं दिधिनन्दनाः पादालवासिन सर्वे भवन्तो वयमेव मुद्गल उवाच शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः उवाच तं वचो रम्यं तेजोयुक्तं स्वभावतः विरोचन उवाच शेषशेषमहाभागमान्योऽस्सि च महामते स्नेहेन वदसि प्राज्ञसत्यं शृणु च मध्वचः अस्माकं मत्सरो राजा ब्रह्माण्डं वशमात्मनः इच्छत्याशासनं तस्य ग्राह्यं युष्माभिराहृदैः नो चेन्नागासुराणां च विनाश प्रभविष्यदि त्वं श्रेष्ठ सर्वभावेन सर्वेषां हितमाचर विरोचनवचुत्वा शेषसर्वार्थको विदः प्रफसंस्तुमुवाचेदं सामयुक्तं महामतिः यदिच्छदि महाभागो मत्सरस्तत् करोम्यहम् इत्युक्त्वा दादुमुत्युक्तः परभारं च वार्षिकं नानारत्नानि दत्वा वैसामचक्रे सुरैः सह नागान् वासुकिमुख्यान् च गृहीत्वा स्वस्थलं ययौ असुराकर्षिता सर्वे जिदनागामहाबलाः पादालजयिनो भूत्वा वरुणं जेदुमाययुः ओं तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पादालविजयो नाम षड्विंशोऽध्यायः ओम्